अष्टनवतितमोऽध्यायः वैशम्पाय न उवाच एतच्छ्रुत्वा वचो यशस्विनी च सा गच्छान्तनोर्भूतये तदा सा च दृष्ट्वा नृपश्रेष्ठम् चरन्तम् तीरमाश्रितम् स्मृत्वा ताभ्यगच्छदनिन्दिता प्रजार्थिनी राजपुत्रम् शान्तनुम् पृथिवीपतिम् प्रतीपवचनम् चापि संस्मृत्यैवत् स्वयम् कालोऽयमिति मत्वा सा वसूनाम् शापचोदिता उवाच चैव राज्ञः सा भविष्यामि महीपाल महिषीते वशानुग तत्तु कुर्यामहम् राजच्छुभम् वा यदि वा शुभम् न तद्वारयितव्यास्मि न तथा प्रियम् एवम् हि वर्तमानेऽहम् त्वैवस्यामि पार्थिव वारिता विप्रियम् चोक्ता त्यजेयम् त्वामसंशयम् तथेति सा यदा तदा भरत प्रहर्षमतुलं लेभे प्राप्य पार्थिवोत्तमं पार्थिवोत्तमम् रथमारोप्यतां देवीम् जगामसतया सह सा च शान्तनुमभ्यागात् साक्षाल्लक्ष्मीरिवापरा आसाद्यशान्तनुस्तां च बुभुजे कामतो वशी न प्रष्टव्येति मन्वानो सतस्याशीलवृत्तेन रूपौदार्यगुणेन उपचारेण च रहस्तुतोष दिव्यरूपा हिसादेवी, सा देवी गङ्गात्रिपथगामिनी कृत्वा श्रीमंतं वरवर्णिनी भाग्योपनतकामस्य भार्या चोपनताभवत् शान्तनोर्नृपसिंहस्य देवराजसमद्युतेः सम्भोगस्नेहचातुर्यैर्हावभाव समन्वितैः राजानम् रमयामास यथा रेमे तथैव सह स रममाणस्तया सार्धं यथाकामं नरेश्वरः अष्टावजनयत्पुत्रांस्तस्याम् अमरसन्निभान् जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत प्रीणाम्यहं त्वमित्युक्त्वा गङ्गास्त्रोतस्य मज्जयत् तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः अथैनामष्टमे पुत्रे जाते प्रहसतीमिव उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः मावधीः कस्य कासीति किम् हि नत्सि सुतानिति पुत्रग्निसुमहत्पापम् सम्प्राप्तम् ते सुगर्हितम् पुत्रम् पुत्रवताम् वर जीर्णस्तु मम वासोऽयम् यथा स समयः कृतः अहम् गङ्गाजह्नुसुता महर्षिगणसेविता देवकार्यार्थसिद्ध्यर्थमुषिताहम् त्वया इमेष्टौ वसवो देवा महाभागा महौ जसः तेषाम् जनयिता नान्यस्त्वद्रुते भुविद्यते मद्विधा मानुषी धात्री लोके नास्तीह काचन तस्मात्तज्जननी हेतोर्मानुषत्वमुपागता जनयित्वा वसूनष्टौ जिता लोकास्त्वया क्षयाः देवानाम् समयस्त्वेष वसूनाम् संश्रुतो मया जातम् जातम् जन्मतो मानुषादिति तत्तेशापाद्विनिर्मुक्ता आपवस्य महात्मनः स्वस्तितेऽस्तु गमिष्यामि पुत्रम् पाहि महाव्रतम् अयम् तव सुतस्तेषाम् वीर्येण कुल नन्दनः सम्भूतोऽति संशयः एष पर्यायवासो मे सन्निधौ कृतः मत्प्रसूतिम् विजानीहि गङ्गा दत्तमिमम् इति श्रीमहाभारते आदिपर्वणि सम्भव पर्वणि